पञ्चदशोऽध्यायः ओ सुवक्षे ध्रुवयोसिद्ध्रुवञ्यो निमासी एतसाधुजा उभ्यस्य केतुम् प्रथमञ्जोषाणास्विना अध्वर्योता आजयता मिहत्वा पुरायिनी ई धृतवाधि पुरम् हि स्यो ने ईदसगाने पृथिव्याः अभित्वा आ रुद्रावसावोगृणम् इमा ब्रह्मापिहितो भागायास्मिना संयुता आदयता बृहत्ताः क्षै अभक्षपितेहसी ईददेवाना अद्धन्ये बृहतेरणाय इषे वै ईधिषु नव आशुषेवा अस्वावेशा तन्वा संवेष स्वाश्विना अध्वर्योसा आदयता मिहत्वा स्थिर्याः पुरीषमस्य सो नामता विष्मे अभिगृणन्तु देवाः तोमा पृष्ठा भृतव दीहते एन प्रजावादस्मेग्रहिना यजस्वाश्विना अध्वर्युता आदयता अदित्यास्ताेता आदयाम्यम् परिक्षस्य धेयम् विष्टम् भानीयम् दिशामधीमीयम् भवानानाम् कोर्म्यद्रप्सो अपामासि विश्वकर्मम् मार्षिरस्विनाः संयोदयता मिहत्मा शुक्रश्च सुचिष्टग्रेष्मा आ अग्नेरम् तस्वेषो ओसि कल्पे ताम् जावापृथिवी कल्पम् तामापोषाधयः कल्पम् तामग्नयः कृतम् मम्येच्छा आजसौव्रताः ये अग्नयस्तनसोऽन्तद्यावापृथिवी इमे ग्रीष्मा आ ऋतो अभिकल्पामानायुङ्गमिव देवा आभिसंविसन्तु तया आ देवतयाङ्गिरस्तद्धृवेशी ईगतम् सजोर् ऋतुभिस्तजोर्विधाभिस्तजोर्देवैस्सजोर्देवैर्वयो नाभिः अर्णये अत्त्वा वेऽस्वानयास्मिना अध्वर्योषा आनयतामिहत्वा स योर् ऋतुभिः सजोर्विदाभिः सजोर्वसोभिः सजोर्देवैर्वायोनाधीः अर्णये अत्पा वैस्वाननायास्मिना अध्वर्योषा आनयतामिहत्वा सजोर्ृतभिः सजोर्विदाभिस्तजो रुद्रेयस्तजोद्देवेऽर्वायोनाभिः अग्नये ह वै स्वानराजास्विनात्वर्योता आदयता विहत्मा सजोर्ृतभिः सजोर्विधाभिस्तजोरा आदित्येयस्तजोद्देवेऽर्वायोनाभिः अग्नये यत्त्वा वै स्वानराजास्तिना धर्योता आनयताभिहत्ता सजोर्ृतभिस्तजोर्विधाभिः सजोर्विस्ते मे एपाह्यपानम् मे ए पाहिम् ज्ञानम् मे ए पाहि चक्षौ मे श्लोकया अपः पिन्वौषाधीयज्जिन्वद्विपालवसकृष्पा पाहि दिवो वृष्टिमे राजा ूर्धवयः प्रजापातिच्छन्दक्षत्रम् वयोमयम् दञ्छन्दाः विष्टम्भो वयो धीपतिच्छन्दो अविश्वकर्मम् मा वयः परमेष्ठीच्छन्दाः भक्तो वयो पुरुषो वयश्चन्दम् छन्दो जाद्रो वयो नाधृष्टम् छन्दाः विद्हो वयश्चति छन्दः पष्ठवाढ्वयो बृहतीच्छन्दाः वुक्षा वयः पृच्छन्द ऋषभो वयस्ततो बृहतीच्छन्दाः अनड्वान्वयः पङ्क्तिच्छन्दो धेगर्वयो जगतीच्छन्दाः च विर्वयः पृष्ठच्छन्दो दिश्यवाद्वयोभिदाच्छन्दाः पञ्चाविर्वयो गायत्रीच्छन्दत्रिवत्सो वयवुष्न्दाः य अनिष्टच्छन्द अलोकम् प्रेणता अस्येन्द्रम् निश्वा आह इन्द्रा अग्नि अव्यधमानामिष्टतान्द्रिज्ञहरम् युवम् पृष्टे नद्या वा आपृथिवी अन्तरिक्षम् च विवा विश्वकर्मम् मात्वा धारयत्वन्तरिक्षस्य पृष्ठेम् यजस्वतीयम् ब्रहस्पतीम् अन्तरिक्षै यच्चान्तरिक्षम् दृग्ज्ञहान्तरिक्षम् माहि विश्वस्मै प्राणाय आपानायोः जानायोः दानाय प्रतिष्ठायै चरित्रा आया वायुष्वाभिपातु भक्त्या सत्याच्छद्दिषा सन्त मेन देवतयाङ्गिरस्तध्रुवापी एदा राज्ञादि प्राजे विशिष्टकाहमात्मासादय पन्तरिक्षस्य पृष्ठे ज्योतिष्मतीस्मै प्राणायाः बाणाय ज्ञानाय विस्मन् ज्योतिर्यच्छा वायुष्ठेधीपतिष्ठयाः देवतायाङ्गिरस्मद्ध्रुवासी गीता नभश्च नभश्च वार्षि गाजतु अग्नेरम् तस्वेषोऽसि कल्पे एताम् द्यावा आपृथिवी कल्पम् तामा कवोषाधयः कल्पम् तामग्नयः पृथम्म मध्येच्छायसौरादा ये अग्नयस्त मानसोऽन्तराद्यावा आपृथिवी इमे वार्षिकाजुतो आभिकल्पमाना इन्द्रामिव देवा आभिसंविशन्तु तया आ देवतयाभृतेशी ईगतम् विषश्च सारदाजतो अज्ञेरम् तस्वेषो कल्पे एताम् द्यावा आपृथिवी कल्पम् तामापघोषाधयः कल्पम् तामग्नयः ये अग्नयः समानसोऽन्तराद्या वा रदा ऋतो अभिकल्पमाना इन्द्राविव देवा आभिसंविसन्तु तया आ देवताङ्गिरस्तद्भृदेशी ईदतम् आयवम् मे पाहि प्राणम् मे बाह्यपानम् मे ए ज्ञानम् मे पाहि म् मे पाहि श्रोत्रम् मे पाहि वाचम् मे पिन्वमनो मे जिह्वात्मानम् मे पाहि द्योतम् मे यच्छा मार्च्छन्द प्रमाच्छन्द प्रतिमाच्छन्दो अश्ली मयच्छन्दाः पङ्क्तिच्छन्द्रिच्छन्दाः ऋहतेच्छन्द अनष्टछन्द अविराच्छन्द अगायत्रेच्छन्दाः पृष्टक्षन्द जगजेच्छन्दाः पृथिवेच्छन्दोऽन्तरिक्षन्दो द्योच्छन्दः समाच्छन्दाः नक्षत्रादिच्छन्दवाच्छन्दाः Manas chandha kriši chandha hiranyan chandha gaus chandha Ajat chandha swas chandha Agnya devata vato o devata Kuryo o devata chandramaha devata Vata o devata arudra devata आदित्या देवता मरुतो अ देवता विश्वे ये देवा देवता बृहत्पेवता इन्द्र अ देवता वरु नो देवता, देवता मोद्धासिराभ्रुवासि भरुणा आ भक्त्या शिभराणि हयूषे त्वा भक्त्या देत्त्वा े राज्यम् ध्रुवासिभरित्री इषेत्लोजेत्त्वा आरय्येत्त्वा पोषा आयत्वा लोकम् प्रेणता अस्येन्द्रम् विस्मा सुस्त्रवृद्धा सः पञ्चदशोऽ वा सप्तदश धर्वालेकविरष्टादशः तव ओ नवदशोऽभिभत्तः सा विग्ने सो वो अद्वा विग्ने सम्भरणत्रयो विग्ने सो यो निश्चतुर्विग् सः गर्भापञ्चविशो यत्रिनवः चतुरेखत्रिशप्रतिष्ठात्र यत्रिशो ग्रत्मस्याविष्टपञ्चतृग् सः नाकषत्रिशोऽभक्तो अष्टाचत्वारि सो भष्टोमः अज्ञेद्भागोऽसि दीक्षायाधीवत्यम् ब्रह्मस्कृतम् कृपस्तोमाः इन्द्रस्य भागोऽसि विष्णाधीवत्यम् सत्रग्रस्कृतम् पञ्चदशस्त्वमाः पृतक्षसाम् भागोऽसि धातुराधीपत्यम् जनित्रग्रस्कृतज्ञ सप्तदशस्त्वमाः मित्रस्य भागो असि वरुणस्याधिपत्यम् शिवो गृह्यर्वातस्कृत एकविज्ञसत्तोमाः वसूनाम् भागो असि रुद्राणामाधिपत्यम् चतुष्पात् कृतम् चतुर्विज्ञेसत्तोमाः त्यानाम् भागोऽसि मरुतामाधिपत्यम् गद्भाकृता पञ्चभिज्ञोमाः अदीते भागोऽसि पोष्णमाधिपत्यमोजस्कृतन्त्रेणवस्तोमाः देवस्य सभिद्भावोऽसि बृहस्पतेराधिपत्यग् समीचीकृताश्च दृष्टो मत्तोमाह जनाम् भावोऽस्य यवानामाधिपत्यम् प्रजास्कृताश्च दश्रत्वाभिने स्वमाह विभूनाम् भागोऽसि विश्वे येषाम् देवानामाधिपत्यम् भूतज्ञस्त्वतन्त्रायस्विवाह सहश्च बहश्चायमो अग्नेरम् तस्विेषोऽसि ्यावापृथिवी कल्पम् ता मा बभोषाधयः कल्पम् तामग्नयः पृथम् मध्येष्टायतु व्रताः ये अग्नयः समनसोऽन्तराद्यावाः पृथिवी इमे हैमन्ति कारुतो आभिकल्पमाना इन्द्रामिव देव आभिसंवे संस्कृतया आदेवतया गिरस्त्वध्रुवेशीदतम् एकजास्तुवत प्रजा आधीयम् तत् प्रजा पातिरधीपतिरासीयत्सृभिरस्तुवत ब्रह्मा आसृज्य तत् ब्रह्मा नस्पतिरधीपतिरासीत् पञ्चभीरस्तुवत भूतान्यसृज्यन्त भूतानाम् पतिरधीपतिरासीत् सप्तभीरस्तुवत सप्त हृदयो सृज्यन्त धाताधिपतिरासीत् नवभीरस्तुवत वितरो सृज्यन्ताधीतिरधीपत्यासीदेकादश भीरस्तुवत ऋतवो सृज्यन्तावाधीपतय आसन् त्रयोदशधीरत्ववत मासाः असृज्यन्त संवत्सरोधिपतिराधीयत्पञ्चदशधीरत्ववत क्षत्रमासृज्यतेन्द्रोऽधिपतिराधीत् सप्तदश धीरस्तुवत ग्राम्या स्वसृज्यन्त बृहत्पतिरधीपतिरायन्नवदश धीरस्तुवत सुमग्रार्या आसृज्येना महोदात्मधीपत्नी आस्ताम् एक विज्ञसत्यावतैकसथा वसवो असृज्यन्त वरुणोऽधिपतिरासीत् प्रियो विज्ञसत्यात्त्ववरक्षुद्रा वशवो असृज्यन्त पुरुषाधिपतिरासीत् पञ्चविघ्नसत्यास्त्ववतारण्या वसवो औसृद्यन्त वायुरधीपतिरासीत् सप्त विज्ञसत्यास्वतद्यावा आपृथिवीम् देयी आम् वसवो रुद्रा आदित्या आरङ्ग्या आजग्रदेवाधिपतय आसन् त्यास्तुवदवनस्पदयोसृज्यन्त सोमोऽधीपतिरासीदेकत्रिग् सतास्तुवत प्रजा आसृज्यन्तय भाश्चाय भाश्चाधीपतय आसन् त्रयस्तृगसतास्तुवतभूतान्यसाम्यम् प्रजा पातिः परमेत्यधिपतिरासीत् लोकम् प्रेणता अस्त्येन्द्रह्वि स्वाहा इति पञ्चदशोऽध्यायः अथ षोडशोऽध्यायः अग्ने जातान् प्रणोदानस्वपत्नान् प्रत्यजाताम् जातवेदोऽनुदस्वा अधीनो ब्रूहितुमना अहे लभ्यस्तवस्यामसम्मग्गस्त्रिवरूपद्भौ सहासा जातान् प्रणोदानस्वपत्नान् प्रत्य जातान्मुदजातवेदः धीना ब्रोहिमनस्य मा नो वैर्ग्यस्यामप्रणोदानः सपत्नान् ब्रहसीयस्त्व ममो ज्योद्रवीणम् चतश्च तारिज्ञो मोमध्योद्रवीणम् अग्ने पुरी ईशमस्य नाम तान् सा विश्वे अभिग्रीणन्तु देवाः ृष्ठाभृतवीभील प्रजावादस्मेद्रविराजस्वा एव छन्दो वरीवच्छन्दः सम्भोश्छन्दः परिभोश्छन्दाः आच्छन्दो मनः्छन्दो व्यतच्छन्दाः सिन्धुश्चन्दः समुद्रस्छन्दः शरीरम् छन्दाः कपुच्छन्द त्रिकुच्छन्दः काव्यच्छन्द अङ्कुपन्दाः अक्षरावम् इच्छन्दः परवम् इच्छन्द अविष्टालवम् इच्छन्द क्षुर भ्रजच्छन्दाः आगच्छन्दः पृच्छन्द स्वयच्छन्द अभियच्छन्दाः ृगच्छन्दो रथम् तरञ्छन्द अनिकायच्छन्द अविभच्छन्दाः इगच्छन्दो व्रजच्छन्दस्वृच्छन्द अरष्टन्दाः एव छन्दो वरेवच्छन्दो वजश्छन्दो अवयस्कृच्छन्दाः विष्पद्भाच्छन्द अविशालन् छन्दश्छरिच्छन्दो अदूरोहणम् छन्दाः न्द्रन् छन्दो अङ्काङ्कम् छन्दाः अस्मिना सत्याय सत्यम् जिन्वप्रेतीनाधर्माणा धर्मम् जिन्वा अन्वित्यादिवादिवम् जिन्व सन्धिनाम् तरिक्षेणाम् तरिक्षम् जिन्वा पृथिना पृथिव्या पृथिवीम् जिन्वविष्टम्भेन मृष्ट्या वृष्टिम् जिन्वा जिन्दप्रिक्षिवाद रमयान्नाहजिन्वा निजारात्र्यात्री जिन्वासिजा वसुभ्रवसो जिन्व प्रकेना आदित्येरभ्या आदित्याय स्पोषेणदायस्पोषम् जिन्व सर्पेण श्रुताय श्रुतम् जिन्वा ऐनेनोषाधिभिलोषाधीरजिन्वोत्तमेन तनोभिस्तनोजिन्वा वयोधसाधीतेनाधीवाभिजिता तेजसा तेजो जिन्वा प्रतिपदासि प्रतिपदेन त्वा नृपदस्य नृपदेन त्वा सम्पदासि सम्पदेन त्वा तेजोसितेजसे त्वा प्रवृदासि प्रभृते गत्वा प्रवृदासि प्रवृते गत्वा विवृतासि विवृते गत्वा समृदासि सवृते गत्वा आक्रमोऽस्याक्रमायत्वा सङ्क्रमोऽसि सङ्क्रमायत्वात् अधीपतिनो जोज्यम् जिम् मवेश्रीक्षत्रायक्षत्रम् जिम् वाक्तिप्राचीदिवसावत्ते देवा अधीपतयः अग्निर्हे एतीनाम् प्रातिधत्तात् त्रिवृत्त्वा स्तमपृथिव्याग्रस्त्रायत्वाज्य मुख्यमव्यतायै स्पभ्रातु कथन्तरज्ञे तामप्रतिक्षित्या अन्तरिक्षे विषायस्ता प्रथमया देवेषु दिगो मात्राया महिम्ना प्राथन्तु विषत्ता चायमधीपतिश्च ते सा सर्वे हेधाना नाकश्च पृष्ठे स्वर्गे लोके यजमानम् च साधयन्तु विरालादिदक्षिणादिवृद्रास्ते देवा अधीपतयः इन्द्रो गो हेतीनाम् प्रतिभक्ता पञ्चदशस्तास्तो वपृथिव्याग्यश्रायतु प्रभोगमुक्तमव्यीप्रभ्नातु गृहत्सावप्रतिष्ठित्या अन्तरिक्षे य प्रथमजा देवेषु दिगो मात्रायावम्ना प्रार्थन्तु इहर्ता चायमधीपतिष्ठते त्वा सर्वे एवम् विधानाकश्च पृष्ठे स्वर्गे लोके यजमानम् च साधयन्तु सम्रालादिप्रतीचीटिका आदित्यास्ते एवामधीपतयः वरुणो हेतीनाम् प्रातिभक्ता सप्तदशस्तामपृथिव्यास्राय तु मरुत्वदीया दुःखम्यातायीयसभ्रातु वैरूपज्ञतामप्रतिष्ठित्या अम्बरिक्षे विषाय स्वात्मसमज विधत्ता चायमधीपतिश्च ते त्वा सर्वे एवम् विधानानाकस्य पृष्ठे स्वर्गे लोके यजामानम् साधयन्तु स्वराजस्युदी चीतिम् मरुतस्ते देवाधीमतयः भोमो हेतीनाम् एकजिज्ञासस्त्वा स्तोमपृथिव्याभ्यश्रायतु निष्के एवल्यमुत्थमम् जाथायैस्तभ्नातु मयिराजज्ञसामप्रतिष्ठित्या अन्तरिक्षे शिशायस्त्वा प्रथमजा देवेषु दिवो मात्रायामधिम्ना प्राथन्तु विधक्ता चायमधीपतिष्ठते त्वा सर्वे एतंविधानाकश्च पृष्ठे स्वर्गे लोके जागम् च साधयन्तु अधिपत्यति बृहति दिग्विश्वे एते देवा अधीपतयः बृहस्पतर्हे दीनाम् प्रातिभत्ता तृणवत्रयस्त्रिभ्यसौ स्वास्तोमो पृथिव्याद्गश्रयताम् वयि स्वदेवाग्निमाधुते मुक्ते हव्यभागी सभ्रीताम् सात्वरदैव सामानी प्रतिक्षित्याे विषा यस्वा प्रसमजा देवेषु दिवो मात्रा विधत्ता चायमधीमतिष्ठते स्वा सर्वे एसंविधानाकस्य कृते स्वर्गे लोके यजमानम् च साधयन्तु अयम् पुरोहरिकेशस्तूर्य रस्तश्च रथकृश्च रथौ पूजाश्च सेनानीब्रामण्यौ िकस्थला च क्रतुस्थला च अक्षरसो ओदङ्क्ष्णवः प्रसवो ओहेतिः पौरूहेयो वधप्रहे एतिः हेभ्यो नमो अस्तु तेन आमृळयन्तु तेनो आवन्तु तेयम् जिष्मायश्च न त्वेष्टितमे एषाम् अयम् दक्षिणा विश्वकम् मातस्य रथस्वनश्च रथे चित्रश्च सेनानी ग्राह्मण्यौ मेनका च सहजन्या चाहसरसौ यातुधानाहेती नमो अस्तु तेन आमृळयन्तु वन्तु ेयम् जिक्ष्मो यश्च नोद्येष्टितमे एकान्त्यम् भेदे दध्मः अयम् पश्चाद्विश्व यथास्तस्य रथः प्रोतश्चातमरथश्च सेनानीग्राौ रम्लोचम् रम्लो कीतानुम् लोचम् कीताक्षरथौ व्याघ्राहेः तेभ्यो नमा अस्तुतेन मृदयम् कृतेन तेयं पेयम् ते ते युष्मायश्च न त्वेष्टितमेषाम् चन्द्रे लयमुत्तरात् सय्यध्वा सस्तस्य तार्क्ष्यश्चारिष्टरेमिष्ट सेनानी ग्रामन्यौ विश्वासीतभृताचीता सरसा आपो हेतर्वातप्रहेतिः तेभ्यो नमो अस्तु तेनामृळयन्तु तेना तेनो वन्तु तेयम् युष्मायश्च नो त्वे हितमेषाभ्यम्भे ए दद्मः अयमुपर्यर्वाग्वासुस्तस्य सेनचिश्च सुषेनश्च सेनानीग्रामण्यौ उर्वती च पूर्वचित्तिश्च प्रसा अवस्थोर्जन् हे कर्विश्च प्रहेतिः एभ्यो नमो अस्तु सेनाविलयन्तु सेना वन्तु ्युष्मायश्च नोग्तमे एषा ज्यम्भे एदः अग्न्यम् नोर्धा दिवक्वगुत्पतिः पृथिव्या अयम् अपाग्नरेता अग्नसि जिन्वती अयाग्निस्त हस्विणोपायश्च सतिनस्पतीः नोर्धा मग्ने पुष्कालावन्थता मोध्ना विश्वस्य वाधताःत्यस्य वजा सस्यनेता यत्रा आदियद्भ्यस्तोद्धानम् रषेयस्पर्शान् जिह्वामग्ने च कृषेऽहम् जवाहम् अभो अध्यग्निः संविधा जना आनाम् प्रतिधेनुमीवायती मुतासम् जह्वायीवप्रमयामुज्जिहा आनाप्रभानवसिस्रतेन कमच्छा अभो ओचावकवयमेऽध्या आयवचो ओवन्दारो ऋषभाय कृष्णे कविष्टिरो नमाधास्तो मा पत्नौ दिवीवरुक्ष्ममो धुव्यम् च मस्तेत् अयमिह प्राथमो धायि धातृभिर्वोताय जिष्ठो अध्वरेष्वीड्याः नामो भृगावोविरुचुर्वणेषु चित्रम् विध्वम् विषेदीषे पुनश्च गोपा आजनिष्टजाविर्विः व्याथे सुविताजनम् जाथे घृतप्रादीको बृहतादि विस्मृता अभ्युमद्विभा आदिभरतेभ्यः शुचीः पावघ्ने अङ्गीरसो गुभा आहितमन्दाविन्दन्श्रियालम् वने एव सजा आयते मध्यमा नस्वहो महत्त्वामा आहुः स्वः सस्पुत्रमङ्गिरः सखायस्तम् <स्वाँगा> वः च मृषग्रस्तोमन्ताग्नये वर्षिष्ठाय क्षितीनामोद्यो ने सहस्वते सर्गे समिद्योवसे वृषन्नग्ने विश्वा अन्य आ इलःस्पदे समिज्यसे तनो नो वसून्याभादा त्वामग्ने हविष्मन्तो देवं मत्ता आसकीलते मन्ये यत्त्वा जातमे एतसज्ञे सहव्यावक्ष्यानिषत् जा त्वाञ्चित्रस्रवस्तमहवन्ते दिक्षु जन्तवाः सो तिष्के एषम् गुरु प्रियाज्ञे एहम् जायवोहे ये नो अभ्युन्नमासोजो न आतमाभूवे प्रियन्ते ज्यमरदिग्गस्वध्वरम् विश्वस्य धूतममृतम् विश्वस्य धूतममृतम् विश्वस्य धूतममृतम् तयो ओजते अरुषा विश्वः ओजसा सरुद्रबत्त्वा आहूतः सदुद्रबत्त्वा आहूतः सरुद्रवत्त्वा आहूतः सुब्रह्मा आयज्ञश्रुतमेवनाम् देवज्ञराधो जनानाम् अग्नेवाजस्य गोमातयीषा आनः सह अस्मेधे एभिजातवे दोमजिश्रवाः ई भानो वसुष्कविरग्निरीरेऽन्यो ओ गिरा देवदस्मभ्यम् कुर्वणी कदीभिः क्षपोरा आजन्मतत्मनाज्ञो ओरुतोषसाः स दिग्मजम्भरक्षसो ओदहः प्रती भद्रो नो अग्निराहूतो भद्रा दातिस्सो भगभद्रो अध्वरः भद्रा उत प्रसस्तयः भद्रा उत प्रसस्तयो भद्रम् मनः कृणष्वृत्रसूर्ये येना ये, आसमत्सु सासहाः येना आसमत्सु सासहोऽवस्थिरातानुहि भूरिशद्धाताम् ने मा आसे अभिष्टीभिः अग्निम् सम्मन्ये यो वसुरः संयन्ति धेनवाः समर्वन्त आसवो सन्नित्या आसो भाजिभयोरग्रस्तो सुभ्य आभारा सो अग्नि वसुर्ग्रिणे द्रुवः सग्जाता सूरयिषग्गस्तोत्रभ्य आभादा उभेतुश्चन्द्रसत्पिषो दर्वेयश्रेणीश आसनी कुतो न बुत्वर्याव सस्वत इषग् गस्तोत्रभ्य आभादा अज्ञेतमद्याः सन्नस्तोभये प्रदन्नभद्रग्भेस्पृतम् ऋध्यामा तवोहैः अथाह्यग्ने प्रतो अर्भद्रश्च दक्षस्य साधोः चृहतो बभूता एवम् अर्कैरद्भवा नो अर्वान् सन्न अग्ने विश्वेभिः स्वमनानीकैः अग्निज्ञ होतारम् मन्येदास्तम् तम् वसुज्ञे सोऽनुज्ञेसहसो जातके एतसम् विप्रन्न जातवे एतसम् यवोऽध्वयास्तद्भरो देवो देवाच्या कृपा घृतस्य विभ्राष्टिमनो वष्टिशोचिषा जुह्वा आनश्च सत्पिषाः अग्नेपन्नो अन्तमहुतच्छाताशिवो भावावधोक्षाः वसुदक्षि वसुस्ववा अच्छा आनक्षिद्युमत्तामग्नन्दाः सन्वा आशोचिष्ठदीरिव स्वम्नाय नूनमीमहे सखिद्धः ृायस्तपसा सत्रमायन्निन्धा न अग्निगस्ताभरन्तः तदस्मिन्नहन्निदधेनागे अग्नीयमाब्रह्मणावस्थीरन्न बर्हिषन् सम्पत्नीभिरनुगच्छेम देवा पुत्रे अभ्रातृभिभृतबाहिरन्यैः ृक्षाणास्तु कृतस्य लोके तृतीये ए पृष्ठे अभिलोचने जिवः आवालो मध्यमरुहत्पुरन्युरजमग्निः सत्पादिश्चेगी प्राणः पृष्ठेऽपि दिव्यानिहीतोदविद्युददधस्पतङ्क्रेण काय्येऽपि अन्यवाः अयमग्निर्वीवतामोपयोस्ता हस्ति यो वद्योततामप्राविध्यम् विभिप्राजमानः सरिलस्य मध्य उपप्रजाहि दिव्या निधाम सम्प्रत्यावध्वपसम्प्रजाताग्ने पसोदेवनाम् गृणध्वम् ृन्वादापितधा युवानाम् वाता अग्नशीयत्वहितम् तु भेतम् उद्बुद्ध्यग्ने प्रतीजागृहितमिष्टा भूवत्ते सज्ञामयम् च अस्मिन् सदस्ये अद्वित्तरस्मिन् विश्वे देहा जामानश्च सीहता <laughs> ेन महसि सहस्रै येन अग्ने सर्ववेदसन् तेनेमै यज्ञन्नो आनयस्वदेवे सुगन्धवे अयन्ते यो निर्वृत्तियोजतो ओजातो ओजथाः सञ्जानन्मग्न आरोहाध्वयादयिम् तपश्च चास तपश्च दैशिराजसो अग्नेरन् तस्वेषोऽसि कल्पे एतान्द्यावा आ पृथिवी कल्पम् कामापहोषधयः कल्पन्मध्वे ये अग्नयस्तमानसोन्तराद्या शिराजतु आभिकल्पा माधा इन्द्राविव देवा आभिसंवेतम् सुतया आदेवतयाङ्गिरस्तभृदेशी ईगतम् परमेता आसादयतु भिव पृष्ठे ज्योतिष्मती विश्वस्मै प्राणायापानाय जानाय विश्वम् ज्योतिर्यच्छा सूर्यस्ते धीपतिस्तया देवतङ्गिरस्त्वभ्रुवासीरा लोकम् प्रेणच्छिद्रम् प्रणाथोऽगद्ध्रुवाम् इन्द्राग्ने स्वा बृहस्पति रस्मिन्यो ना अशीषरन् अस्य तुहत स्वमत्रश्रीणन्ति कृष्णयः जन्मन् देवानाम् द्विसृष्ट्वा लोचने दिवः इन्द्रम् विश्वा अविवृधन् समग्रव्यसङ्गिराः रथीवग्रथीनाम् वाजानाग् सत्पतिम् प्रतिम् प्रोथत स्वोदयवधे विषयम् यदा महत्संवरणाभ्यथात् आदस्य वातो अनुवादितो चिरहस्मते व्रजानम् कृष्णमस्ति आयोष्वा सदने सादजाम् यच्छाया अग्रे सम्रत्यभिद्रजे तस्मै वीयम् भास्वतीमायाद्याम् भास्या पृथिवीमोऽर्वन्तरिक्षम् परमेष्टे त्वा आसादयतु दिवपृष्ठे जयस्वतीयम् प्रतस्वतीयम् यच्छ दिवम् दृग्हदिवम् माहि गीः विश्वस्मै प्राणाया प्राणाय प्राणाय गोदानाय प्रतिष्ठायै चरित्राय र्यत्वाविवा तुच्छ मे नया आ देवतायाङ्गिरत्वसी गतम् सहस्रस्य प्रवासि सहस्रस्य प्रतिमासि सहस्रत्योन्मासि आहस्रासि सहस्रायत्वा